स्वाभुवनायजप्रतिषर्होतापितामहः समादिशाद्रविनमिच्छादिवेशः विश्वकर्मा मनसायज्ञहाया धाता परमो चामितमिषामदन्त्रियत्र सत्रिवेन् पदरेकमाहुः यो नः पिता च निता योगिधाता यो नः सतोदेकेवतपुङ्कम् प्रत्यम् भुवनायम् जन्या सायम् तद्वैपुङ्कमर्गयः पूर्वेतारो न भूना अपरोन्तापोत्तारस्वाभिमाने ये भूतानि समगम् वन्निमानि ृथिव्याम् कृतमन्त न्द्रो यत्र देवाजनाम् गर्भम् यथा चतुः पितापोर्वारिद्या वा पृथिवे अप्रेता विश्वतश्चक्षुतविश्वजोमुपविश्वजो हस्तहृतविश्वदारे संवाहोभ्यान्न पृथिवेयम् देवयकः यज्ञश्चिदाचेदभिमारम्भम् चिमाधेन् या मध्यमा विश्वकर्मन् नुते मा शिक्षा प्रयद्वाहविषत्वधावयङ्गः आचस्पतिम् विश्वकर्मा न मोकये पमायुसम्बाय हद्याहुरेमा समाने वृक्षाहवनानि जोडने विश्वसम् भो रव च साधुकर्मा य बय बृन्धो नायम् पतये नमः हले नागं सर्वां चिन्ते रुजा विश्वयम् मने हिष्टा मत्स्यं हले पुज्य नमस्करां दयाञ्जन सुदेन उत्साह कायशोदेन सकौसलाय दयाञ्जनेन जां इन्द्रे नमस्करां चिद्रजातानाम अदश्वचे समयं भवच्छला सुदेन यत् सर्वं महायज्ञं महायज्ञवत् गात्तम। तस्मिन् एव हि स्वन्नं नयन् च ब्रह्मरपतिहि। उद्दक्रायिश्र्ये एव यज्ञबन्धित्तिहि। अमाभवसिमदमत्सुपते गोविभावसुः। अरिजाति दोर्लेये यत्समवं तु जयदेवाय कामजिन्तं मतिं वादमानम्। यत्वज्ञपतिमापयन्ते आयस्पोज अधियज्ञा समिभ्यः समत्रये ज्ञायस्तम् धर्मम् परिवेत्या श्रीमना शरमया परिवेत्यदेवायज्ञमायन् पुरस्ताम् तस्य गोघात्रिक्त्वार्यन्तगोध्यै श्रीनो यज्ञो यत्र ह्यः स्वाभकाशितो ञ्जिरः अभिनां नमतेनाम मार्जना गुणसत्त्वेभिभिः स्वर्णायैशो देवा गुणमालाक्षदक्खदक्खदेवा देवा गुणमालावच्छदे आगतसमात्प्रदेनो नमः श्रावेनो दक्खिणे अपालवन्ना गुणिन्दामे गृहाहेन आशरागुणकः उच्छ्रावञ्जनेन गृहावेन च प्रथमफलैरामेव सन्ने इन्द्रातान्दनानि मृगे कवेणश्चागमिन्द्रः संनेनानि मृगेन व्यक्तुना युत्थायेन दुश्चनेन व्यक्तुमा इन्द्रेण जय दत्तः ध्वहक्तेन एव हस्तेस्तनहङ्गतरवचेदग्गप्रस्ताविहिन्दार्घणेन समुद्रस्यत्रमपाभाववद्योवाद्दनभा प्रिरविष्टा त्रमपदेपनिपीतामसेनक्षोऽहमित्रगुम् अपासादमानः वरणं तेना समनोऽयसाजेन नस्मागे चविदारसानाम् ुञ्जयन् अभिदेव अभिनत्सानुगितेरुन्धः सुच्यवनम् कृतनाचार्येतादक्षिणा यज्ञोमः मरुतोयम् सग्रे इन्द्रस्य विष्णश्चनाम् मरुताग्रहम् अस्माकम् वेदावृत्से भवन् तस्माकदेवा अवताहले भवय भाङ्गंशे उच्यतमं भालेनां भालेना यत् तदां यदामे तवतः पुण्डरं पुण्डरं तेगतानां चेदावत्तमं दधावहुः इल्लाह कर्म यक्त्त्ना दर्श्यागत साधकः अवधिक्कापनावदाम्ये ब्रह्मसगुंशिता कर्तामिच्छान्तो नैराञ्जनोच्छितः क्षत्रयः विश्व आधारे च मामेवाय चोचन नजे भिमुजेदः खजे तद्वाकिनाना कमक्षो महत्य विद्धरा लोकेच्छरं द्वोर दत्ता मिश्रले एव फेदवान सुव्याह मूलन्दरे कमलवन्दरे काजिमदनं एलोनागच्छ वृष्टा स्वर्गविरागमहान् यदा चक्षु देवानाम् यक्षमाणा भोषात् सुपर्यन्तविदमानात् सख्ये अंदर क्ष काल पृथिव्यायम् चेतवृक्षा पृथव्याक्षेतसाम् प्रेक्षमापिणद्योजिहादिगौत्सवायसा आयुत्वारस्तु प्रदेकः पुरस्कारक्षेमादेतसाध्या हभ्युत्तरस्य चेतसा तेजोऽग्निः दिगम्बरः नौ नद्यः सूर्यः सोम्याय विच्छान् पाणिदक्षन् धर्मयं विपाजाह हि मे मय ब्रह्मत्नम नित्यं विदे मस्ता मेरवले ससते तस्माद् योदेन उवाहितो एदेन दक्षि प्राप्ये तु जगत् विद्धे आवरितसदसमलेन यस्य लिप्ता महामन्त्रे वक्ष्यं विश्वजन्या जगन् बालुहस्तयो प्रदम् एतत् पुत्रज्यो यश्च वित्रज्योदिश्च सत्यज्योदिष्यज्योदिष्णादिश्च दक्षश्च समात्यः यथजिश्च सत्यजिश्चिश्चेणश्चाङ्ख्यमित्रस्य द्रोरेण मित्रश्च गणः यतश्च दक्षश्च ध्रुवश्च धरुणश्च भक्ता विधक्ता विधानयः ईदृक्षादयेन तादृक्षा न गोरुणः प्रदक्षिणाधकृति प्रदक्षिणादये गणः यज्ञे हस्त्यन्य जगेणापि समजामुपस्थय म् प्रियमुखायम् परिगत्व जाना पुत्रम् चेत्सो विद्यताने आरते इमे अमित्ताने पम् गिताम् च यच्छ <SPA census> अपक्षामदे सन्धिक्रगोशलेमयगोसुमनस्यमानाः साधुरकुन्तयो शक्त्येव नगो ह्यासम् इष्ट यत्र प्राणः संजिवन् द्रवन् बिरप्पात् पक्क्षमशवच्छर्मय गुणसंनै केतेन करिङ्खिनास्मा भवदनस्थानो स्वलो अधिकरे तमाद्यकर्मयच्छतु आहनकं जिदान् ने राम जगनां कुपजिद्धदे अक्षायेन उपजेन भवस्मां सर्वस्तुचोदय हरेव भोगे पर्यहुञ्जाया धेर्यम् परिपाधमानः अस्तद्वा विश्वामैरानि विद्वान् पुमान् पुमागुन्दम् परिपादविश्वरः स्वीलयत्वा जगुण्ठः ्याम् भादयताम् जगते इन्द्रस्य मुष्टिरपिलेणयस्वा आमोढय प्रत्यावर्तये माक्युम् तु सर्वा वदे तमस्वबन्धाकमिन्दरतिमायम् ङ्गमम् जायमान उद्यानम् समुद्रा एनस्य वक्षाः एनस्य बाहु अत्रत्यं मयिजात अर्वान् यमेन सत्तम् प्रथमो अध्यनिष्ठते सन्दर्भो अस्य रजान्तो राजस्त्वम् वदगोज अधियमो ेन जलिबन्धनानि केलिबन्धनानि त्रेण्यक्षत्रेण्यन्तः समुद्रे वरुणस्याहुफलमञ्जनिकम् हिमाचेवायण्यवमार्चना नेनादभाषन्निधानाः भद्रादेव भद्राः जनाः पुष्णमृत्यः विलक्ष्यन्ति वा आत्मानं देवमनसारदनाना भवित्वा पयन्तं पदन्यं शिरोवष्टं मदनसुकेतलेगदित्यमानं वदते अत्राग्रदेवो भवत्तमनागतं जिगेसमाना विधा पदनोऽहं सदा ते मत्तः अलभर्गमानकज कृत्स्वर्णमेव जीहः अत्रासोमर्वर्यो अर्पणं जगवन् भक्तनैनाः अनुराक्षलेन्द्रेवायुरस्य हविरद्यमानो हन् नमो अध्येन्द्रलिक मध्यमा सत्यं दोरणाङ्गो यज्ञास्याः अरुन्नागरस्य कृत समजम् पदयित्वम् मन्तपत्वम् वासयि मध्ययीमाय सम लिङ्गायुरुत्रारण्ययत्पुराणाचाक्षाजयुरोणीय सेनाधिकस्यानुभक्ता क्षामक्षन्त्र्याणि चाय च रात्रावक्षालिङ्गे जिन्मते यद्भ्युलोके प्रयानन्द्रायन्ते अत्र भोक्षप्तम् उदयक्षाञ्च पुरस्ता उदयन योगलाः स्थिताय्यक्ष्पयोगाय रक्षये उपवेशवृक्षः त्यप्रभृतमास्त्ये भगुंसर्भाषा च अपि तेदे भक्षिका जयद्धा सुमस्ति अपि मुदलस्यामस्य क्रमितो गन्ध्रादक्षमितार क्रम्बन्तु समेषुश तपाकम् भजन्तु यच्चैकात्रापिनम् परिवश्यन् याहस्त्वमार्गम् प्रतिक्षामुदोषामधिको जन्मयिन्व यन्मे क्षणम् भागत्वजन्यामुहायहात्राणि योच्च आन्या विधाया चोणामन्त्राणाम् निवर्तनम् यच्छमग्री समद्वदः यत्र वपो यत्र कालम् जगा जवन्वासा च अभिजयध्वयद्धूमयम् धर्मोजम् च विलिप्जग्भिः न्तम् देवागृहम् चायमासमुपञ्च सन्धानमर्बन्तम्भागे सत्यं शाजिनो जलम्पश्चपेके हस्तिद्वागात्रा वयनागुण नवश्यादिषा यश्चिशस्ता द्वायन्ता भवनस्तत्राणाम् पुरागण विकान्त्राणाम् त्वजुः यज्ञ बात्स्वा जबक्तिया आश्मा पिरंगंबात्सुजिरिस्पनु भावरिस्चिवत्चे। बावे गद्धर विजत्ता जिगागे सिच्छा गार्ट्रा हैं यजिनाने सुका। नवापु बैतन्निय तेनरिस्टे जेवारुंजिये बचुवेत्सुके अधे। अने क पुरव्यम् न भाग्येश्व श्रियम् पुपुंश पुत्रागम् पुरविष्वापुरगो रयम् शाका त्वम् क्षत्रम् नस्वानसागो हविष्माने ओम् अज्ञालक्षेवानर्थम् सुभागिरः शूर्णे भायभिरागतम् ोगष्टमे दुरक्षमे प्राणश्चे वाञ्ज महाभिमे मनस्तमे चुष्टमे दक्ष मे मनञ्चम भोजस्त मे सहक्षमहायुष्टमे नमो अरिहंताणं साणं देणं ओरोकु देणं येरानी जमे साणं देणं ज्येष्ठञ्च माधिपत्यञ्च मे मन्यस्त्व मे वामस्य मे मत्समे भ्रक्ष मे जयमाचमे महिमाच मे हरिमाच मे परिमाच मे मत्माच मेत्राभियाच मे वृद्धञ्च मे वृद्धश्च मे मृत्यञ्च मे श्रद्धा च मे जगत्त मे धनञ्च मे पञ्चमे प्रपञ्चम अञ्जमय मयश्चमय प्रियञ्जमे लोपावक्षमकामय लो महत्वमय भद्रञ्चमय श्रमय वक्षमय गुरुमय महत्तमय गृणञ्जमय गन्ताचमय भ्राचमये क्षणस्तमय धृष्टमय ऋप्पञ्चमय महत्वमय लोमिच्छमयपञ्चमय लोष्टमय प्रथोस्तमये वेगञ्जमय लयक्षमदञ्चमय मृदञ्च मय यत् पञ्चमे नाम यक्षमय जीवादृत्तमय हेन्दमये हविपञ्चमय याञ्चन ोर्षय गोराजमय गजस्तमय ऋणस्तमय भुदञ्च मय मुदुल मय वृक्षमय ऋवे दृष्टमय गृक्षमय वृक्षित्वमय जय धृत्यञ्चमय गृष्टमय रायस्तमय भुचञ्चमय वृक्षित्रमय विभुजमय प्रभुज मय बहुज मय गोयस्तमय गो नञ्जमय गो मे धल्वाच मधुरा मधुरायङ्का मे न वश्च मे क्यामश्चे निश्च मे ज मे वृत्तिकाज मे गृहयक्षमे भगवताश्च मे जिगताश्च मे महत्पदयश्च मे गिरङ्गञ्च मयश्च मे शिवञ्च मे प्रोक्त मे श्रावञ्च मे लोहञ्च मे ज्यिष्ठमहाय वेदक्षम वद मे मे गच्छ वत्यञ्च मे मे भजवहारण्याश्च मेहत्य समय अष्ट भग्याय मेहल समय जश्च महीन्द्रश्च मे भोगश्च महीन्द्रश्च मय दृदाश महेन्द्रश्च मे भरस्पेश महेन्द्रश्च मे गोजा महेन्द्रश्च मे गृहप्रदश्च महेन्द्रश्च मे ऋत्रस्य महेन्द्रश्च युन्द्रक्ष मे ऋषश्च मयिन्द्रक्षणे बोद्धा च अभुदृक्ष मे हस्य मे राघ्यक्षमे विस्तौ सु मे इन्द्रया वस्त महेन्द्रवक्ष मे वैष्ट्रा वर्णश्च महास्विनश्च मे कृष् प्रच्छ मे भुक्रक्ष मे मन्दे मे वैश्वमेवश्च मे ध्व मे वैश्वानश्च मधुरग्राक्ष मे ष्टमे <Siblickly> वरिष्ठमे <Adams> ञ मे वृद्धानञ्जमे गृहाश्च मे धनश्च मे गुरुधाराष्ट्रमे भजनाष्ट्रमे वपुस मे स्वगाधारश्च मे यज्ञश्च मे धर्मश्च मे यश्च मे गौर्य मे प्राणश्च मे प्रमे स मे पृथ्वेद मे मे ऋक्ष्व रङ्गयोजश्च मे यज्ञानं तावच्च मे तावज मे सर्वमश्च मे देष्ठा नृत्याभ्यः सर्वं प्रवेश मे विज्ञानेन गम् वत्साक्ष मे प्रविष्ट मे प्रियेज मे नित्य मे नित्यौधेश मे य पञ्चाभीषमय सुरक्षमय सुरक्षाचमय गुर्यवाक्षम गुर्यौभीषमय वद्धवाय वृद्धौ भीषम वृक्षाचमय वशाजमय गृहक्षम गृहत्वमयद्वाञ्चमय धेनुश्चमायज्ञेन कम्पनां जानवेन कल्पना परानवयज्ञानकल्पदां ज्ञानो यज्ञानकल्पनाञ चक्षो यज्ञेन कल्पदा शुष्णयज्ञानकल्पनां महायज्ञानकल्पदां जय बद्रीनाथ महाकालेश्वर बद्रीनाथ जी की जय बद्रीनाथ जी की जय प्रणाम हे राधे हे सत्यवंजने हे सत्यने हे नवसमय एकादश हे प्रयाददन हे नवददन हे भक्तदन हे नवददन हे नवददन हे प्रयाग विगुणस्थम प्रयाग विगुणस्थम पञ्चविगो धमे द्वादश द्वादश मेगुं धनिष्ठमे कालिगुं धात्रिं दक्षमहे चक्रिमुत्रादिगुं दक्षमहे दशयो दक्षमेत्रायु दक्षमे वाजश्च प्रभवत्या धनधनादिभाविश्वभूमे विश्व भवन्तः शिक्षरे नव देवागमन् च विश्वजो अस्मने वायश्च प्रथम वित्रा नवबाजव देवालय कल्पयामित्र अयप्लविषधे <Sessly> प्राबूर्बॉट्द्रिन थान्द्रवस्तारि एंपाद्राबॉर्डवने खित्रुपुरौट्पर्पुरूर्पुरूर्व 6-4-1-0-7-0 assam not see! Sammam Grawriba would a call aCorranaguk theeshğaxtrais fuscula marita-numeree fragasyon Siam noi An abed 에�ckte wartana kaurant body haslam a cure ज्ञेदानस्य मनोरञ्जम् महान् विष्पस्य मोर्जन्मचरिस्तुतः त्याभन्तान् धन्यवः अयमजेदमवयो प्रयच्छन् विकायमानस्य निरस्य मध्यमप्रयामोजप्रयाणाम् अस्मिन् निष्क्रयवा यजमानश्च चेदताम्भे धनम् चयेन हि वैकल्लानां धारय वनानां वलम् तमः तुप्पाख्यत्त्वाज्ञा श्रेयः क्रियाय केन स्थावोत्तेरुज्यामेत्वा पचन्मचत्त्वा वदियवान् वल्लादगम जयैवं त्रयम् अयन्त्रायोच्यते चोयसो लातो आरोग्यम् अरिजाननक्जारा महासां अवत्ययिन महाज्ञोत्रो लिखमे अक्षत्त्व वलयतेन नमो भगवते वाक्यम नमलन्तां परिदक्षत्स्य अक्षतयेक्ष नमदनार्गयनाः मोये आलिखे समसुदनैन्द्रमन्ता वदताश्चकये अमाले त्वं बालमन्त्रा चन्दारत्पवरांत्काने अक्क्मे भिरार्द्धविनायन्तः प्रायखे रत्मयेव होतये कृताहोलनावरुन्दो जर्ण्सियामद रुपपिल्यावाज अच्चेंगे जिंतमयाः अख्षा कोडित्स अच्चा मद्वाऑने अस्व। यवामाई हांक अगर मच्चनाहम विष्वेरेवागा अधि वजदाने, जरेएस वेर। रुड्राक्रमान विष्वेरेवाद जरेवेरेद्ध्लन् आथ पुनस्य यज्ञमस्य नक्ष रघुपति राघव राजा राम पतित पावन सीताराम जस तपस्सा अबदन हों इन ठाकिं तामम महासंग हेदारिन सबो दृष्टा रिचा ओस्रम होकर चतार ध्यान रखन्ने हरवा समिन्द महासाहना रेगो गोइछनय रलेच महा शिवनय जम में हृदय लख्वाच लम हरिगोरे बिनंपा We now看到 formulas 우리� departed from the oldßen temples are built and such can perform it in peace the own kingdom, they sind forward and we are by the same earth earth for the poor of them and the rest of their mother the creation of itsoper genocide in order to enter my birth राजद्रुपञ्चासनामञत्रः यत्सङ्ग्रामम् नवे विषयम् दशेन्द्रित्रायन्द्मागतः जहा भगवन् नरेश्वरस्य सत्यब्रह्मामिदस्य नमोर्णाति दूगयन्ने अवधृत्रा वरुणानां जगवजाहर्यितोनां विञ्च नमानमः आयोऽश्वितं विदधाय वन्दहेना वालानात् वन्नवत्ति मृदोय नरक्षनाः तव गितोत्सज्य वैभवं भवत् कौलानां विञ्च नमानमः भूतेषां आयुषां जीवोऽहे वदिगां सन्नेत् सौमेधाय नमः श्रीगणेशाय नमः कार्यभागे कौलानां च दवायतः तत्रैव वर्शिना भक्तोदयेन अंगवट्टो दिव्यव्रस्ये यः कौलानां देवकेयः श्रीनमोदपौरं च रमागतः एतया महागण भगवदियायाः श्रीक्रकेना वंशमिच्छामः सौमिदेवाय च नौनाति कौलानां च समागतः वर्गा प्रेमान बाजंगिस्वान बड़ंच विष्टे आगोर्पोगे दुर्यमादूत येदेनो विंचन्ते नसाः एक्चमाई द्रम्मेरिजनुसाः प्रभिजनुसाः भप्रतनादु जेच्टों सोगिर एवान भरतो नाधिजोचों हवी विचेनो विंचन्ते नसाः हे काले एतावर जय जय नहि केना सो रिष्पां जय रल न जलो हवि वितेना चन्तेन सह अल्लाज्ञां मलयमयदावने संपेय स्मरनोक्त्य वष्टवि ये अपद्रे नावले सलोजन परिहे पुक्तं अमृतोधाम सो निज्जावा तुदेना जलो हवि वितेना मिच्यन सह पूर्वे राजदेवनागः रामञ्चला युःकाण्डः समाप्तः यत्सो चतुर्थे नवभागानिं रक्ष्यामयेतुर्थे दालयं पुलोभाच्यायै राज्याय देवतायै वरक्षालित्तसन्नागत्येणाधिरान्यप्रेतानि देवे ज्यं ीयान् चाचित्र भवज कामय दपदीयान् चालर्वायश्चानुद्रस्य लो यादाहुदेवेन अभिक्रमय दिवसीयान् भवत्य भवयज्ञस्यैवैनाभिक्राणान्मुखानुध्याया देवतायाये चा वेतानि साणि फलं चाक्षरागायते दैवयज्ञमुखार देवता देवे चक्रौधा मित्राणि फलं चाबुजन्मये लक्ष्य मुखे विराजय जयदि कामले प्रथं रागं जयज्ञय हृतेनार्थय यमित्तु जन्तर्यात्थं रागच्छयनार्पय जयधिकामले समाजयनात्मय यमिदमानमेव यज्ञात्वमपुं समर्थये चतुर्थे न्द्रादेवस्य यत्रा समस्या भद्रै मुरुषैवेद्येच्छिना परिमिता भवत्ये फलकृतम् वेदमु वैलवे भवते चामध्ये ैकस्वाभिधायस्कृत्य यज्ञश्च नमध्ये मायन्नावेत्क्रश्च भवितधापमे चैतन्यमानं चागश्चैरञ्जाभमयश्चैव त्याह योगेन योगेवैनयम् राम हरित्यावरुन्धय सखायेन्द्रमोदयेत्याहेन्द्रिय मेदावरुन्ध्रैव जापतिरन् भगिङ्गत्राभे वा ज्रश्च प्रथ वेख्यभक्त्रामन्मजत्रेत्याह वज्रमेव रुद्रक्षाणवत्यादित्या पदोश्चात्मनेकर्मोत्रायुगन्वत्य Thank you. ज्ञम् पुरेष्टङ्गरपरश्चेत्या हतायतनमेवेन हरत्यज्ञम् पुरेष्टमङ्गरश्च वरिश्चामयेन सङ्गक्ष देवानुवास्त्र प्रजापतय प्रित्याहृदयं वये प्रजापदृत्तस्याे भोग्यम् परेष्टमङ्गरित्यामयि मङ्गेन प्रजामदये परित्वाक्षाग्रिमुरश्चज्ञं वरे क्रमफलामय्याहरे महाक्रम्यम्भोयात्मराक्रमये प्रचालोका पुनः प्रजायन्ते हये प्रजापयच्छोमेव्यायश्चैवयानद्वयम् यस्यायत्वेन व्यकृते पुष्टवः नक्तरे दिग्यत्स्वात् यालोकमे प्रक्श्चा हलोतां शान्तस्तथारो वला परप्रदायेन तेरोभदवे यज्ञसमाहौ गच्छन् दिगदौषय परद्रक्कलचोदे प्रज्वल्चन्ते परदौषय परसन्ते वदौ नेष्टो यज्ञेन जनाः यमानं परातत्स्वा नरोभदवे प्रगच्छति दिगदौषय दिगलोहत्नाहौ तेन सुखायन यत् तातकारुन्दे यत् नोहन्जरेण उपाश्चरो वाच्छज्ञमक्के वनो विनान्धः सयथयथरे केव लक्खां गुग्गञ्जं निलगञ्जं मलसाररे च हमनारदेवो निक्के विकच्छरे परेक्षणं सवना नविश्रेष्ठा हनर्भक्जके हस्त्यं थे वदनच लष्टावे प्रावदन समिच्चाहारीषा चनत महान् त्यात्मै महात्मये सत्यरक्षेत्र रामभते सन्माहिते ैमालय प्रागुन्दैकले क्षा कृपहन्ति गायत्रया वरि लिखि ने गजलेयं परिग्रन्थाभावलिखेन्द्रियं वे लत्वभाषतत्वभाषायोगेकालक्ति लिख्या नगन्त्रियम् तत्त्वप्रत्यगता लिख्यम् परिगृह्णाति ैवैकेन जनयति ज्योलिपन्द्राज्ञः ज्यभिदेवैकेन जनयति वा प्रजाश्रुतात्मयत्तैवायशिवं प्रजाभ्यभिगंशं समित्याः प्रजाभ्यदेवेन शमये विद्वारित्यामहेकर बन्दव एतत् प्रत्यङ्ग्करवन्दौकेण दैवेन आहरतिमुत्करवर्णेन सम्भरियो निर्वाद्यवन्दगोभयो देवाद्यगो सम्भर कृष्णादिरेण सम्भरी यज्ञो वे कृष्णाज यज्ञौ सम्भरि यत् राम्याम्बना सम्भरे न्देन भगृह्णाच्यक्र ैश्च नैमेत्त्वाग्ने पुराधेत्या नवीं दत्तमत्त्वाध्यङ्कहित्याह्यं बालाभर्मणस्य लच्चालेत्यं तथा जलमत्साक्यो विजयस्या सम्भरभिहत्रायन्नागुण्डितुर्वायत्रे भ्रां मनस्प्रकायत्वा या मनप्रक्षेराल्यक्रयत्वमयैरपदीयः ृच्छैवात्मायञ्च समे चे प्रथाभरक्षाक्षरागाहित्ये गायत्रिकामेवां नोरशान प्रगन्धे रस्ते जीवयन्ते पाहे ज्ञाऽर्थे अन्धारिक्षालेणवलिक्षाले वार्ते सङ्गसन्नाय प्रलेदि कुर्वत्स्यारक्खला विक्रत् जबवहलेक्षा भोरेखां वितान्कान् कहदेवा तिन्नुजमयिसन्ते वा ब्रह्मालेक्षाद धारित्त्वा कानोरेभ्यः खानेन निवाच्य कालवं सन्दधा दिवं ते बाल्यैत्या हरस्माप्रच्यता हरं कुर्यामाश्च मुरियागुण्डेहन्त एव <laughs> स्वाध्याम परित्यज्य राधावत्त्वा एव रज्जोचाहने विवद शीतयोळे नगव रचितत्स्माले लोहं हेतो ऋक्फदमो नहे क्क्जादास्यं विवरंत सदार सवचक्रमानं ध्यायित्या इकत्र ज्ञायित्या योमास्त्वागतः तत्र विनमप्रच्यावेत् किलोभावे प्राणिदायेदका सवा प्रादे गन्धक्यते वेन वेतनात् हेमलेगत सभेद सम्भरितत्था कत्त्वा पचुरान् धारय धारय समागत सभेद सम्भरितत्था कत्त्वा वाचनालेते चन्यां पथोन्ने यच्चनक्क्चेन आर्तम सम्भरणेगत सभेद सम्भरितत्था कत्त्वा चर्चत्यजोर्थः यत् प्रजागुवाजेश्वरः प्रजापदः शिव भजाः प्रजाभ्यदैवेन गुरुमयशिपाम्य याहि प्रजाभाज्यावापृवे अभिनोषतान्त्याहभ्यगेव दे कनिकदीत्याहारे चाधभक्तप्रेत्याहरात्यापुरेन्दुकुदैदि त्याभगदा फुं समुद्रयमित्याधिवेतयि शिला शिवलोक्ययितामज्ञायाधिवेतयि शिलाभामयव त्याफलो <laughs> इत्याह प्रविमो लब्धेन समर्धय वृत्पावदेत्याहोदयः फलम् गन्धम् प्रोगत्फलित्ययश्चयाक्षेवीणम् प्रज्ञावयवेणम् परिश्रामय स्वाभ्यामुदावहरय प्रविश्रितये चतुरगुं समयभितुरगुं समयस्तगुंसश्च ेतालिवा अल्पदेव नेया चेदुजायकरागं प्रयत्या सर्वं प्रेतरा वाज्ञभाषगं प्रयच्छ जे कृपयज्ञा संवृत्य यत्रय लोकादेशान् लोकालाम् वैभन्नागुद्धिवेत्यङ्गतिनाडिक्यमुखे संविधाप अगे मुखाहेर धावते एवमा श्रेयं माम् प्रस्थायते हप्तः भोगैः सप्तवैशेरे दम्याः प्राणश्चरगे संच्यत् विदुपाहेरं लेव हिचचक्रान् अनंतधारितस्मात् सत्तरेण तस्जगेर and ैव पशो नवं जयज्ञानभक्ते यज्ञो वै प्रजापदयज्ञं वदष्ठानयेन प्रजापदय प्रजातानामन्यवच्छा सर्वे प्रमुख आत्मानवा प्रेणे भगरे यज्ञो वे प्रजापदयज्ञ न्दवञ्च प्रजापय प्रजापदेहाख्या गुनादिता गुलात् प्रजानाख्येलवचं वैनामैतच्छन्द प्रजापदय पशवालोभजा पशो देवापरुन्धे सर्वाणि वा एता लोपाणि सर्वाणि लोकान् यज्ञौषित्येवैक्यं देशस्मालेताज्ञ भवन्ते गच्छता प्रस्थासर्वगौशलं वा च सर्जगौशलं वरस्तं वै स्वाहरस्ताक्ष देव ैत्यन्य लक्षत्यादृत्यावदत्या साक्षादुर्यम्बेनादन्धकामत्यावत् क्षाजे मलम् वाजनम् जातमे नव देवानाम् भक्ष्यप्रियमानम् वाज्य के सु धा हस्मै यजमानाय देहिभ्यक्षा जवन्ध्यश्चामे अभ्यक्त्वा्यम् वादशासरे वादशालो न पृथक् पृथवाणम् पृथिव्याम् म्भवानः भारे सुप्रायना भवन्तु अन्तरामित्राभरुचरन्ते मुखै यज्ञानामभिलम्विधाने गम् सुखिरम् चेशस्य सुलग्ना देवो पश्चन्दो भुवनाधिष्ठाः अविक्तयञ्चोदनादिशासारः आदित्युद्रैर्न ञ्जानः सप्तम्भुवयक्षिरोधः लोकम् प्रयाम न्देना ओ कृष्णैन्दाभिमान्दा काशमेन यत्र क्रमाङ्क्रमदे लौकानाभेयमभिलय निमिष्ठाक्रमास्तु दिवाजे चागायतेभवन्तौनानत्वं वा नौकालोभिलय चिवसुमात्मानक्रन्धि देवलोरा के प्रयादरा प्रयालेदा दक्षिणा वल्यावत्तये स्वल्यावत्तक्षिणात्मना वेलामत्रं वर्मा गृह्णात्तम्बारुपच्यक्तया वेद आत्मानं गृह्णादियमुखां प्रतिवञ्च रवं ुञ्लच्चात्मामित्याः परिचयत्वा विशेष ते रामवज्र नमावज्र महात्मन ते जयेन वन्दे सविभाग्यं नभत्सते हृडागतं वसिते समदाम साधिकाधिना आगता यत्स्वप्नारिक्क्षम प्रियने राज्ञे मदज्ञा यत्त्रियाद् ब्राह्मरत्नाय तोहिनां हतसुधारा यज्ञचक्रे चोहिनां सुवत्त्रयै यत्त्योर्नमाय जितप्रागरे यत्त्योर्नमाय जितप्रागरे Bye-bye. एवं वैधेगञ्जन् वेदप्रथमञ्चन् मानपाण्डो लिख्यः पाण्डालित्येव पदो नवं धै त्रिजने गञ्जं वेदध्वीरञ्जन् मानत्रय मे लोकाय सर्वलोकेकजे गञ्जन् वेदय कथावेदभक्ता न्न भवन्ति पञ्चभिकुलेश्यो पञ्च सौपत्यम् चेतारम् विराशिराशन् यश्च पुराज्योमितमिति तदभिस्तवपदिशत्वातगुंसामितमित्यादस्माद्ब्रह्मणा क्षत्रगुंसमेधियत्सन्य विहरति तस्मात् ब्रह्मणा क्षत्रम् ये कृतशर्माय सङ्गे यं पृथिवे पुरेत्याहत्येव्याधिष्ठ्यमागत्येश्वरयश्चैवते कृष्णाश्चित्तत्पुरमक्त्वा भवन् कृष्णं रोत नवं केविकस्वाया मेवतिनेव लटिम मेरवदे स्वगतं धैर्यं नवमननानिष्पदे एवतद्वैने अव्ती तैनेटे उसमर्द स्थाय चाब देटें जावर चीख जकर देटेरी ते나� comigo आवर ड़्युन फैन्न स्थाय चारसे हैं जावरन आ्गरेबिनि जावर कि पन्ह अगर्मा, गदेटेनेट आप्णमे的时候 लोकयधोकालेवम् इत्याः प्रजावेतु प्रज एव यज्ञ नवे गुरुदं जगानयज्ञै नन्दे तैरभोत्सवान् पुरुषैवेद्यं वैद्य दैवै क्षे भव पक्षप्रभयागुं दिमयागं दिव्याममात्रौ पक्षौ च उच्चन्दर चेतावद्वै पुरुषैमेतायोगेण कृतभिषद्वार ैवत्रिगुणमपश्चा गच्छञ्च यत् पृच्छन् चागच्छन् च मलक्षश्चन्तो यत्कृष्टञ्चागच्छन् च मलक्षज्ञैरुद्यत्या नुष्पादश्चाय प्राय प्रध्यायाविदक्षिणाविलभ्यानुभवैर्ये रवत्रयत्यैरा वेद्यान्तादिक्षामेवै नाननोक्तमत्रौप्राणमेव नानक्षिणा हर्यावर्थं वेदस्माच्चक्षिणात्मना यावत् पदास्यैवामनु हर्यावर्थं वेदस्मात्मनायष्ठन्द प्रत्यन्द्रश्चित्तर्याय च ब्रह्मणाय नवरुन्धैलक्षाम् ्यावरुदय सप्तान्यावरेणावलुभ्यान्नस्यान्नश्चन्नस्यान्नस्यावलभ्यश्चजाना रुद्धिया नवरुद्धे नव्यं परग्रहयत्रानिध्यक्षय ने विद्वालोक्षामेव रुन्धय क्षोदय सत्याम् विजभत्युत्तर वेदभक्त्युत्तर वैद्यागक्षग्निश्चेयते स्वनामुत्तरवेदप्रशो नैवावरुन्ध स्वयज्ञ ज्ञे सवस्त्रभोपयतिगतानि भवत्येतद्वाज्ञेवा नरस्य सोक्त नैव वेष् नरमवलुधेन मत्सरस्कम् मत्क्रमाग्नि स्वा नरमवलुधे समद्रम् वेणामेकच्छमग्रमनः प्रजा प्रजायन्ते कलेशेन पदे प्रजाः येन्द्रय वज्रं प्राहान्यवक्षत्रियस्त्रियो शङ्कराणां वज्रवे शत्करा फलुरग्रमे शर्कराभिज्ञो विवजे नैमाजुवं परिगृन्धाय स्माजेण प्राणा प्राणां धृमादौ र प्राधिना कौले पराज्य मधुरेव sveete mukamudaya satyendraj padmane rohayam namo te vishnu किञ्चित् तेन वदनमुपदधार्मकौपयोजे वा किञ्चित् जैवान् पृष्ठभेत्युपदधाक्षमाय ्रह्मजज्ञानमितरुमुपदधाति ब्रह्ममुखावे प्रजापय प्रजासजन ब्रह्ममुखा एव च ब्रह्मजज्ञान्रह्मवाचनावन्द्युसन्दक्षणद्रग्रश्च र्पयेन्न <Sess> प्रजायन्नमसंवेदन्यवदय and the chabur स्वजमातन्नामधराधीयं स्वयमातन्ये मामेव वदत्य सौमग्रामेव प्राणवतिरथा नियमा जनाभवश्चागत्याश्च यव्य प्राणावेके हे गौरि प्राणे न खलु वै पदवायन्ते यत्याह प्रजापय प्रजापय रात्यै लक्ष्मणये प्रिया लिखिता सामुत्तरलक्ष्माण्ड उपार्जा नमसुधायिम् कामये लभदीयाम् चालित्युत्तरलक्ष्माणम् तस्योपलध्याद्वतीयामेव भवतीम् कामये लातीयान् चालित्यतर्लक्ष्माणन्दश्चपलब्ध्या हृदयो विपातीयाम् भवति प्रियालिहिता भवती नैवे लोकाप्रियालिहितेभ्य एव लोकेभ्योऽभ्यातुर्यमन्तरे गङ्गिलसत्ववर्गम् लोकय्य नः पुलोकाय कोर्म भोत्वारञ्जदानयच्छोनाय कोर्माय कोर्मौ भद्रादित्वमेव मे सम्पत्यं चित्रं चेत् वाय तत्क्रियभेयं वदानाम्पूनागुच्छेदधेयं चेजीवन्द कोर्मौ रण्यम् अजुलिष्टेभयच्यावृद्धे नयश्चयदप्लिग्रन्हा आत् तक्य जमुन तथागतस्थः स्वस्थाः प्रत्ययः परोमे बहुरत्तमं देयोवा अपनां यज्ञेषु सर्वे देवाः ृत्तनाभिमेवाग्न्धयुवधारि मध्ये वा व्यश्व यज्ञा वैपदयो यज्ञ एव यज्ञम् परिष्ठापयति लोकानाञ्च्य दुःखाय दुःखा रुन्धे मध्यमदधानि मध्ये मास्मये ज्योदन्तो नादयच्छेदवार्ये महे स्मानश्च लोकगौ लोके नैव कामले रक्षोभिमत्यादित्यो न चोपदध्याक्षोषक एवमयेतानुपदस्य बन्मध्यादिपूर्णाञ्जपद्यादनुपदस्य देवान्यवस्त्रिसहस्रम् वै गुरुपुरुषोनान्य सहस्रमन्ये वसवो मध्ये पुरुषभेदधा हिरण्यश्रामयतिभ्यारण्यं मधयशमित्येन पूरयत्युभयत्राव रामयना भवत्त्यादिमे सोचेनाई सत्यावदध्या सुशोदगेवाः पापजं तथावदरे महवते रामजय सुभां तादिसुमेतेनाई रुत्त्रवदध्या स्मितहेवात्मै पजवंद तथा स्वदेशे नमः प्रत्यौ वधावस्याजे न्यामजव अन्यै अन्त्यक्षपदमा अस्ता नैवनुवागेशाञवरण्या त्वशमा वन्द्येकेन परुषेर्गे सदध्या धान्यान् वशो जगं नास्तोगेन मारण्यायुरेव yagavada heyā prakāśaṁ gamaya vaśurīracchināṁ jñānabhokalo padare bhavaya padanālite ratāṁ śīrōṁ te gāvadakṣayaṁ jīrva darpaṇa śāntaṁ पदुर्वा ये जगदलोर्विक्रियजय तथाधिपञ्चोपदथाधिपालक्ष्मणतो लक्ष्मणतोगत्यमहन्निपञ्चवत्याखायनुपदधा जवत्या प्राचीनगौरयतो धीयते मश्चायवास्मै प्राचीनगौरयतो दधा जगपञ्च वद प्रदेशे दधा जपञ्च पश्चात् प्राये न गुण्डेतो धीयते प्रदेशे प्रजा पञ्च रक्षं नस्या चैना अवस्यावश्यता उपाधत्तमान्त्य उपदधानाद्यश्च अनजिताः यो वाच हैयब्रह्मयान्नैयश्चैता उपभीयान् कैशौ चैनामेवं वेदनिषत् प्राणभुपदधान्मन् अज्याय देवं पुलभुवैः पुलस्तादुपदधाप्राणमयमेताभक्त्राधारायम् दक्षिणा विश्वकर्मे दक्षिणतोमयेवे ताभ्राधारायं वश्चा विश्वव्यदायि वक्ता चक्षुदेवे ताभ्राधारेतमुत्तरात्रुत्तरश्रोत्रमयमेताभक्ला प्रदक्षेया दक्षिणाकाभिमि प्रोजा भुजे एस्ताभिर्विष्पजम् ल्पतेयवधाय <Sessimulatory> <Sessimulatory> ञ्जनागविन्दलो सञ्च जैनुपदधानापालो यद्वा अज्ञैनै नव सुवर्ग्यवर्ग ेन यच्छय कृष् गायत्वे कृत्वजगत्य लक्षङ्ख्यातः बृहत्तोजेऽभिन् दत्वा ोचे शक्युञ्जम् दत्वाोचे शक्युञ्जम् दत्वारिता युज्यम् जय कर्मचेभ्युन्यम् दत्त्वा ेवत्रया नेषयाः देवानाम् पद्मेषः कोचेऽभिः शिञ्जम् दत्त्वा कुलङ्कयमम् सोयम् चाताञ्चन पूर्वम् वियोजिताञ्च सभोजनायैवच्छन्नयज्ञः चेन् ौ शयिता महिः परश्वरस्कथायधान्द्यार्थर्यवस्माच्छन्द्रात्राय पर्वच्छन्तः अर्धमासाफलोषि मासाम् विशिम्यन्तः अहो रात्राणि मनसौ विरचकम् चोदयन्तु मे श्रीक्षेण वायुश्चित्रम् चोस्ते नक्षत्रे स्थलोकं च नोक्त मत्त्व मत्सभ्यो मज्जलुवने ओ उत्सन्नयज्ञो वा नेतृरज्ञ किम्बा एतश्च क्रियते किम्बाणयद्वै यज्ञश्च क्रियमाणस्याम् तिपो यदि मानस्य यावन्तयक्तान् कल्पय समानप्रमानो धास्त ्यामत्सङ्के तस्मादृतवाग्यामत्तं प्राणभृत प्राणात्तमानात्कं चैधवे प्राणायपदाय प्राणवृतमुपदधा जतस्वा सर्वागतो न वायुना परे मत्ति गादि ृतम् वर्णयफलपरिहारं पदाय वृक्षितमे प्रच्यतादिवृक्षे गो वैक्यानामनः कल्वे पदना चेवादिवयत्याः तस्यापदाया पत्या म् ज्ञानेना श्रीमधुहित्यधुरेव भवय भगवान् शाधिक्यवस्ता सत्यपधाय वयस्यानुपदध्यार्थम् ज्ञानेन श्रीमधुहेक्कि भगवानेव पुरस्तादुपदधाय चक्षुण लोकानि जय विक्लेन जय वृक्षन्मयेन भवन्ति तस्मात् पञ्चोत्तरस्याम् तस्मात्मनः यदि विदक्षिणेकं समुपदधादिक्षम यदित्युत्तरेवं सादेव प्रतिदधादिद्याक्षव यदि विदक्षिणे मक्षमुपदधादि पुरुषोग यदिमध्ये तत्त्वात् पुरुषप्पो नामभिमतिः लोकशायन् मध्यमादि अन्तरे जयेन्द्राज्ञवानामो देवैनामन्तरेक्षे त्यन्तरिक्षन्दये क्षयमागन्नान्तरिक्षमे वात्यावत्योदेवत्यार्गच्छास् निरक्तमम् रुभारदराभ्यै तेन हि साधुः अनयस्य च कावदार्दिसां हि रक्षे लक्खां वदः प्रस्तावपदार्दिनावे पुर्णे तनानाघच्छ समे ज्ञो योगनाज्ञ नो जगेवास्तहतो भक्ते सत्मादृत्तरतो भित्तयायिने निधत्रिवं धज्यन्ते लक्ष्म्यं सप्तशान्नमेव लक्ष्मतो दत्ते तस्मात् दक्षिणे धान्ध्यते धर्म ये कविगुणे कविलु सप्त देहान्तः पञ्चदशत्तरदगोजो देहान्तगोज पञ्चलसभोजयोत्तरतो दैतस्मादत्तरतो ऋप्रायी देति पुरस्कादुपदधा ma abhi abhi paran yagam sarayu saandh nevarakhena soda भिभो नास्थ्यवधयत्युत्तरस्तमस्ति कलयो यंस इति गुरस्ता सुपधा चतुर्विगुंसत्यक्षरा गायत्री गायत्री यज्ञमुखयज्ञमुखमेव गुरस्ताज्ञराजे निगर्भा पञ्चविभुंशैरक्षिताण्डम् मे गर्भां पञ्चविपुंशान् ैव दक्षिणतोदक्षैतस्थानेनान्न लब्ज्य नवोदत्र नवैति पश्चाभिनेव लोकाश्य नैश्वरिवंभरणीषेत्रित्तरस्तहं भार्येन त्रिपुषैतिज्ञमुखं भाग्यज्ञमुखमेव पुरस्ताक्रिया वित्तपञ्चदत्रिकोषै क्तिरतोक्षिणांसैपश्चात् प्रच्छनागच्छंसैश्चे भव नागत्तु भग्यश्च लो च समस्यै अज्ञ भागवदेविरत्थापदधा यज्ञम् अर्जनयज्ञानज्ञम् ब्रह्मयज्ञलक्यज्ञमुखमेव मनस्था भागवदेविदक्षिन सुप्रभागम् भावेन्द्रयक्त्वान्नता जाता भीतामपि ददामि तत्माः जातान्नमस्य जयत्रज्ञम् सप्तदशस्त्वमयत्याः ै वन्दगुं सप्तदशान्नदेव दक्षिणसो जे तैमध्ये रक्तस्य भागो जेभक्त्या कालो वरुणप्राणापानादेवाैकविगुं सप्ताहदिकविगुं से चा इन्द्रश्च भागो जे चित्तदवो जोगायिन्द्रवो जो ज पञ्चदशमोज एव मुखम् वे पतवो यज्य मुखं वृक्षायज्य मुखञ्च दण् निगुण्डायुज्य मुखमेव वरत्रालयत्याम् भागोधीतम् रामादित्यान्नं मददाण्यञ्जर्वान्नं मञ्चलिगुषा िनतो भक्ते तस्मात् प्रक्षिणेदान्नमध्यमे नित्ये भागोच्चात् प्रतिष्ठा वा अरिषत्प्राभोघा प्रसिष्ठाच्च नमप्रतिष्ठे देवत्र भागो भेत्युत्तरसा ब्रह्मवे देवस्त्रह्म निगस्त ब्रह्म जगच्छा ब्रह्मवक्षसमेवात्तरतो भेतस्पादुत्तरात् ेषा धश्च पुरस्ता सुमुखं वै धेव पुरस्थायति यामानां भागव जेति दक्षिणतोक्षिणवतो अन्नं वैयाभा अन्नं प्रजा अन्नमेव दक्षिणत क्षिणे नाणमध्यूनां बोधयत्युत्सर्वस्तवेय तत्मादिनो लोकौ समारज्ये यो यस्य मुख्यवदे परचादीयन्थे मुख्य एव भवत्या च मुख्यजायवे यान्नवदे दक्षिणमास्या अतः सत्यस्य रदस्य चोलस्य तेन तदनवलस्य अवरत्याश्चौज्यस्य जानदनः कोदायेन कृतत्वे देवत्वात् तेन छत्रयैः विधाविज्ञेन ते एवन लक्ष्यमनुजय्येन नस्करं नवाः ज्ञानोदायेन ऐष्टाविधाविज्ञेन एवैना नेन रदस्य एवदार्जिकसा ेन पच्छन्ता उपादश्येना उपधीयन्ते भवतमेव पुरस्तापदशादिजातामेव भातु्यान् प्रदृदये सहसा जातानिति पक्षाच्चिष्यमानामेव प्रचुलते चत्तारं युमसा हेलि लखि नतरां महात्मं देह चत्तारं युमसा दम लक्खि नतरां रक्तकार्येता उपदे ये तु वर्जं नागमार्गय देयते तार स्थगान वर्धा नयान्य एव शुंधा गोषितो वर्क्याय दैवे गजमानस्त वर्जं नागरे जेक्के नमे प्रजावर प्रजा अदुरदतास चामसय नपते देरे एदर मामन में देरे देति वायु संदे चलदै संत्र बिरे के प्रमे अमरे लक्षम प्रमे क्या उगे रात्रे बुद्धि के दिग सोरां करय कयितुसनास्तु जेनेच्या जिचानो देहि प्र संजित प्रजा पद नाना ने पदो देवयचोखे बिरे जिय त्नाहेन्द्राय पेंजेंद्र जयन्डे ेषाम् प्रजाभक्ता ैव प्राणवदधा जन्ते च बालगौ सगौ दत्मयश्वयश्व प्रजाप्राणजे न बाले पच्यन्ते सन्भयेन अभवन्ता सत्रवे शैवपि धनवदधात्ताः प्रजाविधुने भवन्ते प्राजायं तथा राहोजने रमाजे जैव प्राजनयर्था प्रजाप्रजाः प्रत्यनिष्ठन्तापदुपो ज यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परायणाय परिपालयितुं पार्थाय सज्जनो लोकस्य कृत्वा नामक्कम लोके त्रिय सत्यस्य यस्य प्राणमहाभ्याम् भवभिरे नम्रः naraj sarne deva sukh kalva kamaya sandaga sadara andaga sakaiyan gadana bodhadina nadatye गं लोकमेतायनाजमानायतनम्ना गतमुपदधानागतनमेव जनस्तु एतच्चम्भयन्ना गतदोषन्ना गतमुपदधाय वृत्थाना एव ते च पञ्चपदधानश्चेता भूता अवश्यम् आएचल शाद कुष्बाड शादぎ वर्णाद के पाद शाद के वर पच्चाद मुआत कारिस्ट्रावन ज्वेवत पच्चाद शाद व्पत शाद मा कहने सम्� die भ Dual प्राद शाद कुष्ब अधार शाद व्क्रान कि अवर्णन काली को अन जाद शाद कiction 보� referring क्स्चा शाद in charge of America's life, man on it. कर्मादन्नायुषकर्मे प्राणञ्चयुश्च प्राणामुत्तमो हे तस्मान चायश्चायुश्च प्राणानामुत्तमो नाण्यामुत्तरामृष्टकामुपदभ्या चरण्यामुत्तरामृष्टगामुपदध्या स्वनान् जयजमाणश्च प्रायञ्चायुश्चादिदभ्याश्च रक्षका वरमादन्नानुपदरा तौ मे स गभा भन्ना व देवो पदते स्ववग्धा वय दिप्राने वास्यं तथा ततो पाला चोभा सचका वचले वा जिनजुते रस्यमा भन्ना भवत्कान नाम पुत्र्या सो सुवर्क्ष्टो गच्छार्चा जय जामि देला महा मित्रं बल्यसिगञ्जे त्रिकृ तदग्रे बाना नेविक्ता एवो विक्रमाद उत्तरतम पदधायात् प्रावत् सर्वो मजादं केन मार्येन मजिनालय सगे दिने